मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं फिफ्टीन् गणेशप्रसन्नभावः श्रीगणेशाय नमः सूत उवाच शिवस्य वचनं श्रुत्वा भक्तिभावेन तोषितः उवाच मधुरं वाक्यं विघ्नेशस्तं प्रहर्षयन् वक्रतुण्ड उवाच शृणुशम्भो महाभाग मम माया विमोहित गणेशोऽहं तपसा भावितात्मना यपुरा भवदो भवतो वरदादा भवं परः उग्रेण तपसा तुष्टो करवं ज्ञानसंयुधं ममैषा सततं प्रमोह यदि तेन विस्मरणं प्राप्तं तवापि न च संशयः एवमुक्त्वा शिव मायामोहजालं निराकरोद सर्वञ्च स्मरणं तेन पुनः प्राप्तं शिवस्य च सर्वं स्मृत्वा शिवस्तत्र स्तोदुं समुपचक्रमे तावदन्तर्हितं जातं रूपं गणपदे शुभम् पुनर्ध्यानेन शम्भुः तमो वा चिन्तयन् स्थितः नापश्यद्घृति तद्रूपं तेनाकुल इवा भवत् अयौविष्णुरभ्यासे सर्वं त्वकथयच्छिवम् अदृष्टं तादृशं रूपं कथयामास सोपितम् एवं पञ्चाप्य दृष्ट्वा तत् विस्मिता अभवन्परं एकत्र मिलिदा जादास्तुष्टुवुस्तं गतस्मयाः पञ्चदेवाऊजुः नमस्ते वक्रतुण्डाय त्रिनेत्रं दधते नमः चतुर्भुजाय देवाय पाशाङ्कुशधराय च लम्बोदरनमस्तुभ्यं नाभिशेषाय ते नमः महदे चैकदन्ताय शूर्पकर्णाय ते नमः सिन्धूरारुणदेहाय रक्तवर्णधराय महाकायाय सूक्ष्माय गणेशाय नमो नमः सिद्धिबुद्धियुतायैव विभूदि च चिंतामणिधरा तथा चिंतामणे नम अव्यक्तायराय मनोवाणीविहीनाय विघ्नेशाय नमो नमः नाना मायाधरायैव मायिना मोहकारिणे हेरम्पाय नमस्तुभ्यं ब्रह्मणां पदये नमः दर्शयस्व निजं रूपं भक्तेभ्यः प्रीतिदायकं सनाधा हि वयं तेन सर्वनाथाय ते नमः स्तुवतान्दुपुरः देवो गजाननः तं दृष्ट्वा दण्डवत् सर्वे प्रणदा भक्तिभावदः तानुद्प्य स्वयं ढुण्ढिर्वचनं चेदमब्रवीत् स्तोत्रेण भवितो देवः प्रीतो वो नात्र य पठे स्त्रिश् सैम मो भवत्सुरा वाचिद पूरयिष्यामे मे सायुज्युयाद शृणुमें वजोरम्यं मागर्वं कुरुत प्रिया मदधीना कला संशय क्रीडार्थं निर्मिता सर्वे स्पर्धमानाः परस्परं किमर्थं मनसि भ्रान्ता जाता पूर्णात्मका अपि श्राव्यं ज्ञानं रहस्यं यन्मदीयं तेन भाविताः सदा मोहविनिर्मुक्ता भवितारश्च मत्समाः ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे प्रसन्न भावो नाम पञ्चदशोऽध्यायः ओम्